अथ षट्त्रिंशः सर्गः ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया सबाष्पमतिनिश्वस्य जगादेदम् पुनर्वचः सूतरत्नसु चतुर्विधबला च मोः राघवस्यानुयात्रार्थम् क्षिप्रम् प्रतिविधीयता रूपा जीवाश्च वणिजश्च महाधनाः शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः येचै चैनमुपजीवन्ति रमते यैश्च वीर्यतः तेषाम् बहुविधम् दत्वा तानप्यत्र नियोजय आयुधानि च मुख्यानि नागरा शकटानि च अनुगच्छन्तु काकुत्स्थम् व्याधाः शारण्यकोविदाः मृगान् कुञ्जरांश्च पिबंश्चारण्यकम् मधु नदीश्च विविधाः पश्यन्न राज्यम् संस्मरिष्यति धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः तौ राममनुगच्छेताम् वसन्तम् निर्जने वने यजन् पुण्येषु देशेषु विसृजश्चाप्त दक्षिणाः प्रवत्स्यति सुखम् वने भरतश्च महाबाहुरयोध्याम् पालयिष्यति सर्वकामै पुनः श्रीमान् रामः संसाध्यतामिति एवम् ब्रुवति काकुत्स्थे कैकेय्याभयमागतम् मुखम् चाप्यगमच्छोषम् स्वरश्चापि व्यरुध्यत सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् राज्यम् गतधनम् साधोऽपीतमण्डाम् सुरामिव निरास्वाद्यतमम् शून्यम् हरतो नाभिपत्स्यते कैकेय्याम् मुक्तलज्जायाम् वदन्त्यामतिदारुणम् राजा दशरथो वाक्यमुवाचायतलोचना वहम् तम् किम् तु दसिमाम् अनार्ये कृत्यमारब्धम् किम् न पूर्वमुपारुधः श्रुत्वा वराङ्गना कैकेयी द्विगुणम् क्रुद्धा राजा तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् असमञ्ज इति ख्यातम् तथायम् गन्तुमर्हति एवमुक्तोऽधिगित्येव राजा दशरथोऽब्रवीत् व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत तत्र वृद्धो शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् असमञ्जो गृहीत्वा तु क्रीडतः पथितारकान् सरय्वाम् प्रक्षिपन्नप्सुरमते सर्वे क्रुद्धा राजानमब्रुवन् असमञ्जम् वृणीष्वैकमस्मान्वा राष्ट्रवर्धना तानुवाच राजा किन्निमित्तमिदम् भयम् ताश्चापि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयोऽब्रुवन् क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्त चेतसः सरय्वाम् प्रक्षिपन् मौर्ख्या तरुलाम् प्रीतिमश्रुते स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नराधिपः तम् त्याजाहितम् पुत्रम् तासाम् प्रियचिकीर्षया तम् यानम् सभार्यं सभार्यम् सपरिच्छदम् यावज्जीवम् विवास्योऽयमिति या तानन्वशात्पिता सफालपिटकम् गृह्य गिरिदुर्गाण्यलोकयत् दिशः सर्वास्त्वनुचरन् स यथा पापकर्म कृत् इत्येनमत्यजद्राजा सकरो वै सुधार्मिकः रामः न हि कञ्च न पश्यामो राघवस्यागुणम् वयम् दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् अथवा देवि त्वम् कञ्चिद् दोषम् पश्यसि राघवे तमद्यब्रूहितत्वेन तदा रामो विवास्यते अदुष्टस्य हि सन्त्यागः निरतस्य च निर्दहेदपि शक्रस्य द्युतिम् धर्मविरोधवान् तदलम् देवि रामस्य श्रिया विहतया त्वया लोकतोऽपि हिते रक्ष्यः परिवादः शुभानने श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वरः शोकोपहतया वाचा कैकेयीमिदमब्रवीत् एतद्वचो नेच्छसि पापरूपे हि न जानासि ममात्मनोऽथवा आस्था कृपणं कृपण्कुचे चेष्टा हिते साधुपथा दपेता अ्रजिष्याम्य हम्यम पर त्यज्य सुखम धनम्चराजा भरते नं यहाव चिराय राज्य श्रीमद्मा आदि का्य अयोध्याकाण्डेष त्रिंशः सर्गः